नारदपुराणं पूर्वार्थम् अध्यायम् तर्टि नैन् सनक उवाच भूयशृणुष्व विप्रेन्द्रमाहात्म्यं परमेष्ठिनः सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् अहो हरिकथालोके पापघ्न पुण्यदायिनि शृण्वतां वदतां चैव तद्भक्तानां विशेषतः हरिभक्तिरासास्वादमुदिदाये नरोत्तमाः नमस्करोम्यहं तेभ्यो यत्सङ्गान्मुनि मुक्तिभाग्नरः हरिभक्तिपराये दु अरिनाम हरिनामपरायणाः दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमो नमः संसारसागरं तर्तुं यच्छेन्मुनिपुङ्गव स भजे धरिभक्तानां भक्तान्वै पापहारिणः दृष्टस्मृतः पूजितो वा ध्यादप्रणपितोऽपि वा समुद्धरदि गोविन्दो दुस्तराद्भवसागराद् स्वपन् भुञ्जन् व्रजं स्तिष्ठन्नतिष्ठंश्च वदंस्तथा चिन्तयेद्यो हरेर्नाम तस्मै नित्यं नमो नमः अहो भाग्यमहो भाग्यं विष्णुभक्तिरतात्मनां येषां मुक्तिकरस्थैव योगिनामपि दुर्लभा अत्राप्युदा अत्राप्युदाहरन्दीममितिहासं पुरातनं वददां शृण्वदां चैव सर्वपापप्रणाशनम् आसीत् पुरा महीपालत् सोमवंशः जयधि ख्या नारायणपरायण विष्णर्देवाल्यजनपरायण दीपदानरतूतदयापर सकताचिन्मकी पालो रेवातीरे मनोरमे विचि कुसुमोपेदं कृतवान्विष्णुमन्दिरम् स तत्र नृपशार्दूलः सदा सम्मार्जनेरथः दीपदानपरश्चैव विशेषेण हरिप्रियः हरिनामपरो नित्यं हरिसंसकृतमानसः हरिप्रणामनिरदो हरिभक्तजनप्रियः विदिहोत्र इति ख्यादो पुरोहितः जयध्वजस्य चरितं दृष्ट्वा विस्मयमागतः कदाचिदुपविष्टं तं राजानं विष्णुतत्परं अपृच्छद्विदिहोत्रस्तु वेदवेदाङ्गपारगः विधिहोत्र उवाच राजन्परमधर्मज्ञ हरिभक्तिपरायण विष्णुभक्तिमदां पुंसां श्रेष्ठोऽसि भरदर्शभ सम्मार्जनपरो नित्यं दीपदानरतस्तथा तन्मे वद महाभाग, किं त्वया विदिदं संपादनेन वर्तिनां, वर्धीनां संपादनेन च संयुक्तोऽसि सदा भद्र यद्विष्णोर्गृहमार्जने कर्माण्यन्यानि सन्ध्येव विष्णोः प्रीतिकराणि च तथापि किं महाभाग यदयोः सततोद्यदः सर्वात्मना महापुण्यं नरेश्य विदितं च यद् तद्ब्रूहि मे गुह्यतमं प्रीतिर्मयितवास्ति चेद् पुरोधसैवमुक्तस्तु प्रहसन् स जयध्वजः विनया वनदो भूत्वा प्रोवाचेदं कृताञ्जलि जयध्वज उवाच शृणुष्व विप्रशार्दूल मयैवाचरितं पुरा जातिस्मरत्वा जानामि श्रोतॄणां विस्मयप्रतम् आसीत् पुरा ब्रह्मन् स्वारोचिषेन्दरे रैवतो नाम विप्रेन्द्रो वेदवेदाङ्गपारगः अयाज्ययाचकश्चैव सदैव ग्रामयाजकः पिशुनो निष्ठुरश्चैव ह्यपण्यानां च विक्रयी निषिद्धकर्माचरणात् परित्यक्तः स बन्धुभिः दरिद्रो दुःखितश्चैव शीर्णाङ्गो व्याचितो भवद स कदाचिद्धनार्थं तु पृथिव्यां पर्यटन् द्विजः ममारनर्मदातीरे श्वासकासप्रपीडितः तस्मिन्मृदे तस्य भार्या नाम्ना बन्धुमदी मुने कामचार परासादु परित्यक्ता च बन्धुभिः तस्यां जातोऽस्मि चण्डालो दण्डके दुरिधि श्रुतः महापापरतो नित्यं ब्रह्मद्वेष परायणः परदारपरद्रव्यलोलुपो जन्तुहिंसकः गावश्च विप्रा बहवो निहदा मृगपक्षिणः मेरुतुल्यसुवर्णानि बहून्यपहृतानि च मध्यपानरदो नित्यं बहुशो मार्गरोधकृत पशुपक्षिमृगादीनां जन्तूनामन्दकोपमः कदाचित् कामसन्तप्तो गन्दुकामो रतिं स्त्रियः शून्यं विष्णो गृहं दृष्ट्वा प्रविष्टश्च स्त्रिया सह निशिरामोपभोगार्थम् शयिदम् तत्र कामिना ब्रह्मन् स्ववस्त्रप्रान्तेन कियद्देश्य प्रमार्जिदः यावन्त्य पांशु कणिकास्तत्र सम्मार्जिदाद्विदा तावज्जन्म कृतं पापं तदैव क्षयमागतं प्रतीपस्तापितस्तत्र सुरतार्थं द्विजोत्तम तेनापि मम दुष्कर्म निःशेषं क्षयमागतम् एवं स्थिते विष्णुगृहे ह्यागदा पुरपालकाः जारोयमितिमां तां च क्षदवन्तः प्रसह्य वै आवां निहत्य सर्वे निवृत्ता पुररक्षकाः यदा तदैव सम्प्राप्ता विष्णुदुदाश्चतुर्भुजाः किरीडकुण्डलधरा वनमाला विभूषिताः तैस्तु सम्प्रेरिता विष्णुदूदैरकल्मषैः दिव्यं विमानमारुह्य सर्वभोगसमन्वितम् दिव्यदेहधरौ भूत्वा विष्णुलोकमुपागतौ तत्र स्थित्वा ब्रह्मकल्पशतं साग्रं द्विजोत्तम दिव्यभोगसमायुक्तौ तावत्कालं दिवि स्थितौ ततश्च भूमिभागेषु देवयोगेषु वैक्रमाद तेन पुण्यप्रभावेण यदूनां वंशसम्भवः तेनैव मे च्युदासम्बत्तथा राज्यमकण्टकम् ब्रह्मन् कृत्वोपभोगार्थमेवं श्रेयोह्यवाप्तवान् भक्त्या कुर्वन्ति ये सन्दस्तेषां पुण्यं न वेद्म्यहम् तस्मात् सम्मार्जने नित्यं दीपदाने च सप्तम यदिष्ये परया भक्र्या जाति स्मरो यतः यः पूजये जगन्नाथमेकाकी विगतस्पृहः सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् अवशेनापि यत्कर्म कृत्वे मां श्रियमागतः भक्तिमद्भिः प्रशान्तैश्च किं पुनः सम्यगर्चनाद इति भूपवच श्रुत्वा विदिहोत्रो द्विजोत्तमः अनन्ततुष्टिमापन्नो हरिपूजा परो भवद तस्माच्छृणुष्व विप्रेन्द्र देवो व्ययह नारायणोऽव्ययः ज्ञानदो ज्ञानदोवापि पूजकानां विमुक्तिदः अनित्याबान्धवात् सर्वे विभवो नैव शाश्वतः नित्यं सन्निहितो मृत्युकर्तव्यो धर्मसङ्ग्रहः अज्ञो लोको वृद्धागर्वं करिष्यदि महोद्धतः का सन्निहितापायो धनादीनां किमुच्यते जन्मकोटिसहस्रेषु पुण्यं यै समुपार्जितं तेषां भक्तिर्भवेच्छुद्ध देवदेवजनार्दने सुलभं जाह्नवीस्नानम् तथैव तिथिपूजनम् सुलभा सर्वयज्ञाश्च विष्णुभक्तिः सुदुर्लभा दुर्लभा तुलसीसेवा दुर्लभसङ्गमः सदा सर्वभूतदयावापि सुलभा यस्य कस्यचित् सत्सङ्गस्तुलसी सेवा हरिभक्तिश्च दुर्लभा दुर्लभं प्राप्य मानुष्यं न तथा गमयेद्बुधः अर्चयेद्धि जगन्नाथं सारमेतद्विजोत्तम तर्तुं यदीच्छति जनो दुस्तरं भवसागरम् हरिभक्तिपरो भूयादे रसायनं। रसायनम् आश्रय गोविंदं। मा विलम्बं कुरुप्रिय आसन्नमेव नगरं कृतान्तस्य कि दृश्यते नारायणं जगद्योनिं सर्वकारणकारणम् समर्थ यस्व विप्रेन्द्र यदि मुक्तिमभीप्सी सर्वाधारं सर्वयोनिं सर्वान्तर्यामिणं विभुं ये प्रपन्ना प्रपन्नामहात्मानस्ते कृतार्थान संशयः हे वन्द्यास्ते प्रपूज्याश्च नमस्कार्याभिशेषतः ये च यन्ति महाविष्णुं प्रणतार्तिप्रणाशनम् ये विष्णुभक्ता निष्कामा यजन्ति परमेश्वरं त्रिसक्तकुलसंयुक्तास्ते यान्ति हरिमन्दिरम् विष्णुभक्ताय यो दद्यान्निष्कामाय महात्मने पानीयं वा फलं वापि स एव भगवत्प्रियः विष्णुभक्तिपराणां तु शुश्रूषां कुर्वते तु ये ते यान्ति विष्णुभुवनं यावदाभूदसम्प्लवम् ये यजन्ति स्पृहा शून्या हरिभक्तान् हरिं तथा त भुवनं सर्वं पुनन्ति स्वां कृपांशुना देवपूजापरो यस्य गृहे वसति सर्वदा तत्रैव सर्वदेवाश्च तिष्ठन्ति श्रीहरिस् तथा पूज्यमाना च तुलसी यस्य तिष्ठदिवेश्मनि तत्र सर्वाणि श्रेयांसि यत्र तिष्ठति केशवः न भूतवेतालकादयः शालग्राम शिला यत्र तत्तीर्थं तत्तपोवनं यदत्सन्निहितस्तत्र भगवान्मधुसूदनः यद्गृहे नास्ति देवर्षे शालग्राम शिलार्चनम् श्मशानसदृशं विद्यात् तद्गृहम् शुभवर्जितम् पुराणन्यायमीमांसधर्मशास्त्राणि च द्विज साङ्गा वेदास्तथा सर्वे विष्णोरूपं प्रकीर्तितं भक्त्या कुर्वन्ति ये विष्णोः प्रदक्षिणचतुष्टयं तेऽपि यान्ति परं सर्वकर्मनिबर्हणम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्यं नामैको न चत्वारिंशोऽध्यायः ओम्